प्रातःकालीनमन्त्रः ॐ प्रातरत्निम् प्रातरिन्द्रम् भवामहे मित्रा वरुणा प्रातरश्विना प्रातर्भगम् भूषणम् ब्रह्मणस्पतिम् प्रातः सोममुतरुद्रम् भुवेम ॐ प्रातर्जितम् भगमुग्रम् भुवेम वयम् पुत्रमदितेर्यो विधर्ता आद्रश्चित्यम् मन्यमानः सुरश्चिद्राजा चित्यम् भगम् भक्षित्याह ॐ भगप्रणीतर्भगसत्यराधो भगीमाम् धियमुदवादन्नः भगप्रणोजन यगोभिरश्वैर्भगव्रन् ऋभिन् ऋबन्तः स्याम ऊतेदानीम् भगवन्तः स्याम प्रपित्व उत मध्ये अह्नाम् उतोदिदामगवन् सूर्यस्य वयम् देवानां सुमतौ स्याम ॐ भगएव एव भगवा अस्तु देवास्तेन वयम् भगवन्तः तन्त्वा भग सर्व इज्जु हवेति त भगपुर एता भवेह